ॐ तन्त्रमन्त्रविशेषज्ञाय नमः ॐ तनुमध्याय नमः ॐ त्रिविष्टपायै नमः ॐ त्रिसन्ध्याय नमः ॐ त्रिस्तन्यय नमः ॐ तुषासंस्थायै नमः ॐ तालप्रतापिन्यै नमः ॐ ताटङ्किन्यै नमः ॐ तुषाराभायै नमः ॐ तु हिनाचलवासिन्यै नमः ॐ तन्तुजालसमायुक्ताय नमः ॐ तारहारावलिप्रियाय नमः ॐ तिलहोमप्रियायै नमः ॐ तीर्थाय नमः ॐ तमालकुसुमाकृत्यै नमः ॐ तप्तकाञ्चनसङ्काशायै नमः ॐ तारकायै नमः ॐ त्रियुताय नमः ॐ तन्वय नमः ॐ त्रिशङ्कुपरिवारितायै नमः ॐ तलोदर्यै नमः ॐ तिरोभाषायै नमः ॐ ताटङ्कप्रियवादिन्यै नमः ॐ त्रिजटायै नमः ॐ तिथिर्यै नमः ॐ तृष्णाय नमः ॐ त्रिविधाय नमः ॐ तरुणाकृत्यै नमः ॐ तप्तकाञ्चनभूषणायै नमः ॐ त्र्यम्बकायै नमः ॐ त्रिवर्गायै नमः ॐ त्रिकालज्ञानदायिन्यै नमः ॐ तर्पणाय नमः ॐ तृप्दायै नमः ॐ तृप्ताय नमः ॐ तमस्यै नमः ॐ तुम्बरुस्तुताय नमः ॐ तार्क्षस्थायै नमः ॐ त्रिगुणाकाराय नमः ॐ त्रिभङ्ग्यै नमः ॐ तनुवल्लैर्यै नमः ॐ थात्कार्यै नमः ॐवाय नमः ॐ थान्ताय नमः ॐ दोहिन्यै नमः ॐ दीनवत्सलाय नमः ॐ दानवान्तकर्यै नमः ॐ दुर्गाय नमः ॐ दुर्गासुरनिवरुण्यै नमः ॐ देवरीत्यै नमः ॐ दिवारात्र्यै नमः ॐ द्रौपद्यै नमः ॐ दुन्दुभिस्वनायै नमः ॐ देवयान्यै नमः ॐ दुरावासाय नमः ॐ दिद्र्यभेदिन्यै नमः ॐ दिवायै नमः ॐ दामोदरप्रियायै नमः ॐ दीप्तायै नमः ॐ दिग्वासाय नमः ॐ दिग्विमोहिन्यै नमः ॐ दण्डकारण्यनिलयाय नमः ॐ दण्डिन्यै नमः ॐ देवपूजिताय नमः ॐ देववन्द्याय नमः ॐ दिविषादायै नमः ॐ द्वेषिण्यै नमः ॐ दानावाकृत्यै नमः ॐ दीननाथस्तुतायै नमः ॐ दीक्षायै नमः ॐ दैवतादिस्वरूपिण्यै नमः ॐ धात्र्यै नमः ॐ धनुर्धरायै नमः ॐ धनुर्धारिण्यै नमः ॐ धर्मचारिण्यै नमः ॐ धुरन्धराय नमः ॐ धराधाराय नमः ॐ धनदायै नमः ॐ धान्यदोहिन्यै नमः ॐ धर्मशीलायै नमः ॐ धनाध्यक्षायै नमः ॐ धनुर्वेदविशारदायै नमः ॐ धृत्यै नमः ॐ धन्याय नमः ॐ धृतपदायै नमः ॐ धर्मराजप्रियायै नमः ॐ ध्रुवायै नमः ॐ धूमावत्यै नमः ॐ धूमकेश्यै नमः ॐ धर्मशास्त्रप्रकाशिन्यै नमः ॐ नन्दाय नमः ॐ नन्दप्रियायै नमः ॐ निद्राय नमः ॐ न नृनुतायै नमः ॐ नन्दनात्मिकायै नमः ॐ नर्मदायै नमः ॐ नलिन्य नमः ॐ नीलाय नमः ॐ नीलकण्ठसमाश्रया रुद्राण्यै नमः ॐ नारायणप्रियायै नमः